मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायं तर्टि सेवेन् वृत्समदनित्यकर्मवर्णनम् श्रीगणेशाय नमः अयल उवाच कथं नित्यं महायोगी गाणपत्याग्र्य एव महापूजां कृत्समदो द्विविधां प्रचकारः तन्मे विस्तरतो ब्रूहि धन्योऽयं ब्राह्मणेषु वै कृतो विप्रो ऋषिस्वसूक्तकस्य च गार्ग्य उवाच शृणुतस्य मुनीन्द्रस्य चरित्रं भक्तिसंश्रिदम् य गजाननं सोप्य नित्यमादराद भजमादराल समय गुर स्वमस्तके मानस्या पूजया पूज्य तथा हृदय गणेशर गाच तथा स्मृत्वा विभूदिरूपधारकान् क्षमाप्य धरणीं पश्चात्पादं चिक्षेप विप्रपः शौचाचारमशेषं च चकार शास्त्रमार्गदः दन्तकाष्ठां तदो भक्ष्यस्नानं चक्रे यथा विधि आदावाभ्यन्तरं स्नानं चकार शृणुतन्नृप वक्ष्यामि सिद्धिदं पूर्णमज्ञानमलनाशनं सहस्रारे समासीनं गजाननमनामयं अङ्गुष्ठपर्वमात्रं तं प्रभुं ध्याये च दुर्भुजं पूर्णं दन्ताभयसमन्वितं त्रिनेत्रं भूषणायुर्युक्तमनर्घ्यवस्त्रराजितं पादाङ्गुष्टाग्रसम्भूतां तस्य तीर्थमयीं परां सरितं चिन्तयेत् पूर्णामासमन्ताप्रसारिणीं सर्वान्तर्गतचम्पूर्णमज्ञानं मलरूपकम् तया सङ्क्षालये चित्ते सर्वगयासुधीः एवमान्तरगं स्नानं ह्यकरोदि नरोत्तमः स सर्वमलहेनश्च भोक्तिं वैदिकम् तान्त्रिकं द्विधा स्वशाखोक्तविधानेनादौ वैदिकं समाचरेद ततः स्वमूलमन्त्रेण युक्तं तान्त्रिकमाचरेद सशुद्ध सर्वकर्मार्हो भवते देवता समः एवं चकारराजसत्तमा गणेशप्रीतिकामार्थम् भक्ति उक्तो महामुनिः शुचिवस्त्रे तथा गृह्य सन्ध्यां चकारवैदिकीं तद आगमसम्भोदाम् गाणेशीं सर्वसिद्धिदाम् तत्रा च मनकम् प्रोक्तं त्रिविधं। विबुधोत्तमैः वैदिकं तान्त्रिकं पौराणिकं चैव सुसिद्धिदं व्याहृत्या वैदिकं प्रोक्तं मूलमन्त्रेण तान्त्रिकं पौराणिकं च दुर्ध्यन्तं तं गणेश नाम तत्र पौराणिकं वक्ष्ये महत् शुचिकरं शृणु यथा वित्समदो विप्रेन्द्रश्चकार महायशाः गणेशो ढुण्डिराजश्च हे रम्बो वक्रतुण्डकः शूर्पकर्णश्च विघ्नेशश्चिन्तामणिर्गजाननः लम्बोदरश्चैगदन्दो ब्रह्मणस्पदिरेव च विनायको ज्येष्ठराजो विकढकपिलस्तथा धरणीधर आशापूरको महोदरस्तथा धूम्रके दुर्मयूरेश स्वानन्दवासकारकः त्रिभिराजम्यहस्तौ वै संक्षालये सङ्क्षालयेन्नरः द्वाभ्यामोऽष्टौ सम्पुडं चैकेन वै संस्पृश्यंस्तदः पादौ तथैव नाम्ना वै शिरश्च चिबुकं नृप द्वाभ्यां दक्षिणवामेधु नासिके संस्पृश्येत्तदः द्वाभ्यां नेत्रे तथा कर्णौ नाभिं चैकेन हृत्तथा ललाडं मेकनाम्नादु बाहु चैकेन संस्पृशेद जलयुक्तेन नाम्नायो नरश्चैवं समाचरेद आचमनं भवेत्साक्षाद्गणेशो भूमिमण्डले तदोन्यासादिकं कुर्यात् कलश स्थापनं चरेत पीठपूजां तथ कृत्वा मन्त्रन्यासं समाचरेत आगमोक्तेन मार्गेण मुनिर्वित्समदो महान् चकार सकलं राजन् देवतुल्योऽपि नित्यशः ध्यात्वा गजाननं चित्ते पूजां चक्रे स मानसीं स्थिरचित्ते न योगीशो गणेशस्य विधानविद मानस्यां स्थिरचित्तत्वं पारणं परमं मदं न वर्णाश्रमभागश्च वर्तते नृपसत्तमा वर्णाश्रमयुतानां <Glering> चात्रावर्णाश्रमरूपिणाम् अधिकार सदा शास्त्रे वर्तते स्थिरचेतसाम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते गृत्समद नित्यकर्मवर्णनं नाम सप्तत्रिंशत्तमोऽध्यायः ओम